मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं टु शुक्लकृष्णचतुर्थी वरदानवर्णनं श्रीगणेशाय नमः मुद्गल उवाच ततो देवीगणाध्यक्षं स्मृत्वा स्रष्टुं मनो ततो कस्माद्विधा सा वामभागं कृष्णवर्णं दक्षिणाङ्गं तथा बभौ शुक्लवर्णं महाभाग ततः सा विस्मिता ध्यात्वा स्रष्टुं तत्रोपचक्रमे ततस्तस्या मुखाम्भोजात्प्रतिपन्निःसृदा तिधिः नासिकायाम् द्वितीया वैवक्षसश्च तृतीयिका अङ्गुलीभ्यस्तथा दक्षपञ्चमी च भवतिधिः उत्पन्ना हृदया षष्ठी चक्षुषोः सप्तमी बभौ अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः नवमी तिथिरुत्पन्ना उदराच्च प्रजापदे दशमी कर्णदेशाद्वै खण्डाच्चैकादशी मता द्वादशी पदयोस्तस्या समुत्पन्ना तथा विभो स्तनात्रयोदशी तस्य अहङ्काराचतुर्दशी मनसः जादा अमावास्या तदा भवत् जिह्वाया सर्वभावेन तिधयो भिन्नदां दधुः कृष्णा चतुर्थी प्रोक्ताय तस्या कृष्णा प्रकीर्तिताः तिथयोर्दशपञ्चाख्या ज्ञातव्या विबुधै किल शक्ला शुक्लचतुर्थी देहाचतुर्दश वैमताः तिथयो विधिवत्सर्वा बभुस्वस्वगुणान्विताः दिनां सा पुरुषाजादा रात्रयस्त्रीस्वरूपकाः स्वस्वभावविहारज्ञा बभूवुश्च हितेरताः भिः सहिता देवी चतुर्थी तपसि स्थिता गणेशमभजन्नित्यं मन्द्रध्यानपरायणा वर्षेणैकेन विघ्नेशस्तां व्ययौ भक्तवत्सलः शुक्लां समये कृष्णां चंद्रोदये तथा वरं ब्रूहि गणेशानस्तामुवाच विशेष प्रणम्य विघ्नपं पूजयित्वा स्तुत्वा जगादशा चतुर्थ्युवाच त्वदेकनिलयां देव मां कुरुष्व गजानन नान्यं व्याचे वरं स्वामिन्भक्रिमिच्छामि शाश्वतीम् तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः प्राप्तं चतुर्धि मध्याह्ने मदीयं दर्शनं त्वया अदो मध्याह्नकालेऽन्ये माम्भजन्दे शिवादयः चतुर्थ्यां शुक्लपक्षस्य स्फितायां सर्वदा मदीयव्रतमुख्यत्वे भवत्वं सर्वभावदः निराहारेण मां तत्रत्वद्युक्तं पर्युपासते चतुर्विधं प्रदास्यामि नानाभावनियन्त्रितं सञ्चितं नास्ति चेद्देवि तथाप्यत्र सञ्चितं चास्ति चेद्वापि ददासि महामदे अतस्ते नाम विख्यातं वरदेति भविष्यति त्वाम्बूजयन्ति येनैव मद्युक्तां व्रतभावतः तेषां व्रतानि सर्वाणि निष्फलानि भवन्तु वै एवमुक्त्वान्तर्दधेसौ गणेशो देवनायकः तदा दिशातिधिख्यादा वरदा च प्रजापदे गणेशस्य प्रियात्यन्तमिति जन्मतिथि स्मृता तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः पञ्चम्यां पारणं दक्षकर्तव्यं द्विजसाक्षिकं चतुर्विधं फलं तैश्च संप्राप्तं नात्रसंशयः संशयः यद्यदिच्छति तत्तत्स लभते व्रतकारकः अन्ते स्वानन्दगो भूत्वा सायुज्यं ब्रह्मणस्तथा तत्र व्रते नराः पापा अन्नं भक्षन्ति चेत्प्रियं नारकास्ते भविष्यन्ति हीना अन्नैः पुनर्जनौ ये वम्बरं चतुर्ध्यै स ददौ विघ्नविदारणः सा तिथिः सर्वमान्या च बभूवव्रतमूलगा अधकृष्णां चतुर्धीं स जगादगणनायकः वरं वृणुमहाभागे दास्यामि मनसीप्सितं श्रुत्वा सा तं पूजयित्वा गजाननं स्तुत्वा जगादवाक्यं वैहर्षेण महदायुता कृष्णचतुर्थ्युवाच यदि प्रसन्नभावेन वरदोऽसि गजानन तदा भक्तिं दृढां देहि त्वदीयां मे महोदर त्वत्प्रियत्वं सदानाथवियोगो न भवेच्च मे सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावदः तस्यास्तद्वचनं श्रुत्वा तां जगादगजाननः सदा मम प्रियात्यन्तं भविष्यसि महातिथे चन्द्रोदये वै प्राप्तस्तेन चतुःखिके तत्काले जव्रतं मुख्यं तद्युक्तं भवतु प्रियं न वियोगो प्रियेन्न जलवर्जिताः उपासते च तेषां त्वं सङ्कष्टहरणं कुरु प्रहरान् पञ्चमद्भक्ता प्रियेन्न जलवर्जिताः उपासते च तेषां त्वं सङ्कष्टहरणं कुरु चतुर्विधं स्वसङ्कष्टं जन्म मृत्युश्च कर्मजं व्रतीनां तत्फलं कर्म विद्यतेन कदाचन इत्यादिविविधं देवी विशेषेण चतुर्विधम् सङ्गष्टदं हरत्वं वै मत्प्रसादाच्चतुर्थिके न सङ्गष्टं कदाचिद्वै व्रतकारी नरस्य च भवेन्मे भक्तियुक्तस्य पुनस्त्वद्युक्तसेविनः इह भुक्त्वाखिलान् भोगानन्दे स्वानन्दमाप्नुयात् सङ्कष्टहरणी नाम भवेत्तव चतुर्थीके न करोदि च दुर्थीं चेन्नरो मद्भक्तिकारकः निष्फलं सकलं तस्य भजनं वै भविष्यति त्वां त्यक्त्वा ये नराः पाप्रतमन्यच्च कुर्वदे व्रतादिकं निष्फलकं तेषां सर्वं भविष्यति वर्णाश्रमस्तको भूत्वा चतुर्थीं न करोति चेत् तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत् यदि रात्रौ निराहारयुक्तः सन् व्रतमाचरेत सङ्कष्टहरणम् देवि स्वानन्दार्थं न संशयः अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने श्रावणे लड्डुकाण्ढक्षेत् भाद्रके दधि निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके मार्गशीर्षे जलाहारः गोमूत्रभक्षणं माके मास्यतिलान् शुक्लान् फाल्गुने कृतशर्करा पञ्चगव्यं मधौ मास्ये पद्मबीजकम् ज्येष्ठे कृदं गवाम् भक्ष्यमााढे मधुभोजनम् यदीनां सर्वदा ह्यदव्रतं युक्तम् अन्ये भोजने अन्येषाम् भोजनेनैवानेन वाव्रतकं स्मृतं याममात्रा वसिष्ठायां रात्रा सत्वरम् प्राधकृत्यम् सुसङ्क्षेपात् कर्तव्यम् तन्नरेण वै तथा माध्याह्निहम् कर्म कर्तव्यम् प्रादरेव चतुर्घटिकरात्रौ सूर्योदय स प्रकीर्तितः एवम् कर्मादिकम् कृत्वा माम् सम्पूज्याल्पमन्त्रतः प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् चन्द्रोदयस्य पर्यन्तं शमीमूले जपं जपेत मदीयम् मौनिभावेन पश्चात् स्नानं समाचरेत् सा कर्म तत्र कुल्यान्नरोत्तमः विधिना पूज्यमां पश्चादर्घ्यदानं समाचरेत आदौ तेर्घ्यप्रदानं च ततो मेर्घ्यनिवेदनं तदः सप्तार्घ्यदानं हृदीचन्द्राय समाचरेत ब्राह्मणैपूजितैर्देवि नरकुर्याच्च भोजनम् मोदका पूपलड्डूकपायसादिभिरादराद रात्रौ जागरणं गुर्यान्मदीयकथयान्वितः पञ्चम्यामुपचारैः सम्पूजयन् मां प्रयत्नतः एवं व्रतं नरकुर्यात् सवै वै सर्वार्थसिद्धिभाक भविष्यत्यमरैर्मान्यों ते ब्रह्मणि लयम् व्रजेद यथाहम् देवतादीनां पूज्यः सर्वाद्यभावतः तथा त्वम् व्रतजातीनामाभिपूज्या भविष्यसि शुक्लाम् कृष्णाम् चतुर्थीम् ये करिष्यन्त्यमरादयः सर्वव्रतादिभावेषु तेषां सिद्धिर्भविष्यति एवमुक्त्वार्दधे सौ गणेशो ब्रह्मनायकः चतुर्थी भक्तिसंयुक्ता भवत्तत्रैव संस्थिता ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लकृष्णचतुर्थी वरदानवर्णनं नामद्वितीयोऽध्यायः ओम्